चत्वारिंशः सर्गः विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः उवाच परमप्रीतो मुनिम् दीप्तमिवानलम् श्रोतुमिच्छामि भद्रम् ते विस्तरेण कथामि माम् पूर्वजो मे कथम् ब्रह्मम् तस्य तद्वचनम् श्रुत्वा कौतूहलसमन्वितः विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव श्रूयताम् विस्तरो रामसगरस्य महात्मनः शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः विन्ध्यपर्वतमासाद्य परस्परम् तयोर्मध्ये समभवद्यज्ञः पुरुषोत्तमा स हि यज्ञकर्मणि तस्याश्वचर्याम् काकुत्स्थदृढजन्वा महारथः अंशुमानकरोत्तातसगरस्य मते तस्य पर्वणितम् यज्ञम् यजमानस्य वासवः वा राक्षसीम् तनुमास्थाय यज्ञियाश्वमपाहरत् ह्रियमाणे काकुत्स्थतस्मिन्नश्वे महात्मनः उपाध्यायगणाः सर्वे यजमानवथा अयम् पर्वणि वेगेन यज्ञयाश्वोपनीयते हर्तारम् जहिताकुत्स्थहयश्चैवोपनीयता यज्ञच्छिद्रम् भवत्येतत् सर्वेषामशिवायनः तत्तथा क्रियताम् राजन् यज्ञोच्छिद्रः कृतो भवेत् सोपाध्यायवचः श्रुत्वा तस्मिन्सदसि पार्थिवः षष्टिम् पुत्रसहस्राणि वाक्यमेतदुवाचः गतिम् पुत्रा न पश्यामि रक्षसाम् पुरुषर्षभाः मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः तद्गच्छत विचिन्मध्वम् पुत्रका भद्रमस्तु वः समुद्रमालिनीम् सर्वाम् पृथिवीमनुगच्छत एकैकम् योजनम् पुत्र विस्तारमभिगच्छत यावत्तुरगसन्दर्शस्तावत्खनत मेदिनीम् तमेव हय हर्तारम् मार्गमाणा ममाज्ञया दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् विहस्थास्यामि भद्रम्बो यावत्तुरगदर्शनम् ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः जग्मुर्महीतलम् राम पितुर्वचनयन्त्रिताः योजनायामविस्तारमेकैकोधरणीतलम् विभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः भिद्यमाना वसुमती योजनानाम् सहस्राणि षष्टिम् तु रघुनन्दना विभिदुर्धरणीम् रामरसातलमनुत्तमम् एवम् पर्वतसम्बाधम् जम्बूद्वीपम् नृपात्मजाः खनन्तो नृपशार्दूलसर्वतः परिचक्रमुः सासुराः सह पन्नगाः ते प्रसाद्य महात्मानम् विषण्णवदनास्तदा ऊचुः परमसन्त्रस्ताः पितामहमिदम् वचः भगवन्पृथिवी सर्वा खन्यते सगरात्मजैः बहवश्च महात्मानो बध्यन्ते जलचारिणः अयम् यज्ञहरोऽस्माकमनेनाश्वोपनीयते इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनचत्वारिंशत् सर्गः